गणेशपुराणं क्रीडाखण्डम् अध्यायम् फिफ्टि टु दूदावूचतुः प्रेदभूतपिशाचानां लोकोऽयं राजसप्तमा निन्दा पैशून्यतास्तेयकृतो यान्त्यत्र भूपते तदोऽग्रे पश्यति लोकावसुरररक्षसा यत्र दे विविधाकारा ऊर्ध्वकेशा भयानकाः घोरास्याश्च ललज्जिह्वा मेखनादाधरोपमाः अग्निकुण्डनिभ्रांस्तान् स दृष्ट्वा पप्रच्छतौ पुनः केषामिदं पुरं दूतौ गतदमेऽनुपृच्छदः तावो चतुरयं लोको दुष्टदानवरक्षसां श्रौदस्मार्थक्रियाहीना अत्र तिष्ठन्ति पापिनः तदग्रे लोकं गन्धर्वसेवितम् स्वर्ग रौप्यस्वर्गृह रनकाचन भूमयः नर नार्यः कामरत्यो नृत्यगान विशारदाः नारमरो नृत्य अतिसौख्यक सृष्ट्वा पप्रछ्छत पुनः केशादूद मेनु नुछत तावोच दुः गन्धर्वनगरं चेदं देवस्थानेषु गायकाः प्राप्नुवन्ति महापुण्यादिदं पुरमनुत्तमं सिद्धचारणयक्षाणां गुह्यतानां पुरं महद नानाव्रतैस्तथा दानैर्गम्यं पुण्यसमुच्चच्चैः दूतौ चतौ नृपं पश्चाद्दर्शयेदां गरीयसीम् इन्द्रस्य नगरीं रम्यामश्वमेध सदार्जिताम् सुवर्णरत्नगोदानरथाश्वगजदानतः गम्यां तीर्थाभिषेकाद्यैपुण्यैर्नानाविधैरपि यत्रेन्द्रभवनं रम्यं दर्शयेतामुभौ नृपम् नृपो निरीक्ष्य तौ प्रोचे यच्छ्रुदं दृष्टमेव तद् अग्निलोकं तदोऽग्रेतौ दर्शयेतां नृपं शुभं यत्राग्निहो तृणो वह्नि तेजसो भ्रान्त्यनेकशः ततोऽ्रे दर्शयेतां तौ यमलोकं शुभाशुभं यत्र पुण्यकृतो यान्ति तथा पापकृतोऽपि च सधर्मः सुकृताम्भाधिक्रूरो दुष्कृतकर्मणां सुकृतः सर्वभोगांस्तु दुष्कृतो नरकानपि भुञ्जते प्राणिनः स्वस्वकर्म भोगानने कषः कुम्भीपाके च पच्यन्ते छिद्यन्ते चासिपत्रकैः अयोकनेन ताड्यन्ते कृत्यन्ते कण्डकैरपि तामिस्रां चान्धतामिस्रे कृमिकुण्ठे स पूयके त्यन्ते नरके घोरे दुष्कृधपाणिनः सदान् निरीक्ष्या मीलयन्नेत्रे यादं यादमिति ब्रुवन् तदोऽग्रे दर्शयेतां तौ कौबेरं लोकमुत्तमम् अत्याश्चर्यकरं शक्रलोकादधिवरं परम् रत्नकाञ्चनयुक्तानि गृहाणि दीप्तिमन्दि च रत्नकाञ्चनदानेन तुलादानैश्च कोडिशः प्राप्नुवन्ति महाभागाः कौबेरं लोगमुत्तमं तदोग्रे दर्शयेतां तौ वारुणं लोगमुत्तमम् तीर्थान्नदानदौ दानदोलभ्यं कुबेरभवनातिकम् अप्सु सर्वे शुष्कदेखा वसन्धिसुखभोगिनः वापीकूपतडागानां दृश्यन्ते जलदायिनः तदोऽग्रे दर्शयेदान्तौ वायुलोकं सुखावहम् दद्यजनम ग्रीषीम कर्पूर जलम वसंति वायुलोके स्वेच्छादि विहारिण तदग्रे सूर्यलोकं दुरासदं पंचाग्नि साधनरदा सूर्यभक्परायणा अवाप्तकामा सर्वे ते सूर्यवर्चसः निवसन्ति निराबाधा ब्रह्मकल्पशतं नराः नाक्षत्रम् चन्द्रलोकम् च दर्शयेताम् नृपं ततः मुक्ताबलसुवर्णानाम् दानेन सोमयागदः प्राप्नुवन्ति महात्मानो लोकमेनं सुपुण्यतः गोलोकं च तदोऽग्रे तौ दर्शयेतां नृपं तदा गोसहस्राणि ये दद्युर्ब्राह्मणेभ्यो यथाविधि रोमसङ्ख्यैस्तु कल्पैस्ते गोलोके निवसन्ति सत्यलोकं तदग्रे तौ दर्शेता सत्यव्रता वेद विदो वेद्ययनत सदाचारा शास्त्रुराण पाठकाश अयज्ञकर्ता सेन अप्रदिग्राहकाविप्रापरोपकृतिकारिणः तपस्विनो दानपरा सत्यलोकं व्रजन्दिते गव्यूत्यष्टसहस्रेण विस्तीर्णं तावदायतं यत्र ब्रह्मा मुनिगणैर्गणैराजर्षिणां गनायर परैः देवर्षीणां दानवानां गन्धर्वाप्सरसां तदा स्तूयमानो दिवारात्रं सेव्यदे भक्तितत्परैः यदेन्द्र भवनामानि गृह्याणि परितालसन् तं दृष्ट्वा नृपतिर्लोकं विस्मितः तौ तदा नृप उवाच धन्योऽस्म्यनुगृहीतोऽस्मि गणेशेन कृपावता भवद्भ्यां च यदो दृष्टा स्वर्गलोकास् सुदुर्लभाः क उवाच तं पुनर्दर्शयेतां तौ वैकुण्ठं विश्रुतं त्रिषु लोकेषु तत्र गच्छन्ति वैष्णो भक्ति तत्पराः सर्वलोकेषु श्रेष्ठं तं नोपमा यस्य विद्यते शेपो न वर्णने शक्रो नेकवक्त्रो न चात्मभुः ऊर्जं स्नायी छश स्नायु मेषस्नायी तिलान्नदः गोदो गीताध्ययनवान्प्राणिनाम् चोपकृत्ययः विष्णुलोकं व्रजत्याशु सहस्रपञ्चयोजनम् सूर्यचन्द्रप्रकाशानि विश्वकर्म कृतानि च मन्दिराणि प्रभासन्ति रत्नकाञ्चनराजतैः प्रविशत्येव तमोरत्नमरीचिभिः ुदो लक्ष्म दैत्य जहर्ष नृपवर्ोसौ दृष्ट्वा संजयाद, तदो तत्ण्यसयाद तदग्रे दर्शेता कैलास गिरिशालयं, मेरोस्तु शिखरे रम्ये युदन विस्तृ रविचन्द्रप्रकाशानि हर्म्याणि यत्र भान्ति च यत्र पञ्चाक्षरजपा रुद्राध्यायजपाश्च अनेक साधनरदा पुण्यवन्दो व्रजन्तिह तं दृष्ट्वा प्राहनरुपदेर्विनायकप्रसादः दृष्ट्वा सर्वे देवलोकाः पुण्यदादर्शनान्नणां तदोऽग्रेण रविश्चन्द्रः सहस्रयोजनावधि विमानप्रभयादि न च पश्यन्ति किञ्चन मेखनादनिभं शब्दं शुश्राव दुःसहं गिरिवर्यप्रकाशानां भ्रमराणां समन्तदः कस्य शब्दः श्रूयते यमिति पप्रच्छ तौ नृपः कदा द्रक्ष्यामि देवस्य पादपद्ममिति स्फुटं ददर्श शक्तिं भ्रामरिकां दृढाम् अनेकादित्यशङ्काश्यं ब्रह्माण्डग्राससाहसाम् प्रसारिदमुखाम्भीमां दृष्ट्वा मूर्च्छामि यान्नृपः आश्वास्य निन्यतुस्तन्धु दुधावग्रे तदा तद आधारशक्तिं दृष्ट्वा च कम्पे नृपदेर्भ्रामरीमस्तके स्थितां करालकेशं लम्बोष्टिं दीर्घजिह्वां प्रभायुताम् आश्वासिदो व्रजन्नग्रे सोऽपश्यत्कामदायिनीम् आधारशक्तिं संविष्टां योजनायुधविस्तृताम् भ्रमन्ति पर्वदा यस्याश्वासवायुविवर्तनाद वज्रादि निष्ठुरैर्देहैर्यस्यास्तिष्ठति सा पुरी वददस्म नृपं दूतौ पश्य स्वानन्दपत्तनम् यध्यानपरितृप्तोऽसि कोडिसूर्यनिभं शुभं रत्नकाञ्चन सम्भिन्नाभागृहाः परे मुक्ता रचदसूर्याश्मनिमिताश्च सहस्रशः नीलाश्मकुट्टिमा यत्र पुमांसो यत्र वह्निभाः यत्र वापी तडागाभान्दिजसरांसि च स्वच्छ सीताम्बुनीलानि पीदरत्नतडानि च यदम्बु पानान्न जरान्न क्षुद्रो गो नृणाम्भवेद आक्रीडा विमला नाना वृक्षवल्ली विराजिताः दिव्यौ श्रद्ध्यो दिवाः सूर्य कोडिभात्र चन्द्रपृष्ठे प्रपश्यन्ति कलङ्करधिते मुखम् विलासिनी जना यत्र सर्वदाधो यत्र पुष्पवनामोद्धश्रमं हन्ति विहारिणां इक्षु सागरतीरं तत् प्राप्योत्ते युर्मुदायुधाः इति श्रीगणेशपुराणे क्रीडाखण्डे द्विपञ्चाशत्तमोऽध्यायः ओ